कल्याणायतपूर्णचन्द्रवदना प्राणेश्वरानन्दिनी पूर्णा पूर्णतरां परेश महिषीं पूर्णामृतास्वादिनी सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारती श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणी चैतन्यात्मकचक्रराजनिलयां चक्रान्तसञ्चारिणी भावाभावविभाविनीं भव परा सद्भक्तिचिन्तामणि श्रीचक्रप्रियबिन्दुतर्पण परा श्रीराजराजेश्वरी ईशाधृक्परयोगबृन्दविदिता स्वानन्दभूताम् परा पश्यन्तीं तनुमध्यमां विलसिनी श्रीवैखरीरूपिणी आत्मानात्मविचारिणीं विवरगा विद्यां त्रिबीजात्मिका श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी लक्ष्यालक्ष्य निरीक्षणां निरुपमां रुद्राक्षमालाधराम् त्र्यक्षार्धाकृतिदक्ष वंशकलिकां दीर्घाक्षि दीर्घस्वरा भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीम् श्रीचक्रप्रिय बिन्दुतर्पण परा श्रीराजराजेश्वरी ह्रीम्बीजागतनाद बिन्दुभरिता ओङ्कारनादात्मिका ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदा इच्छाज्ञानकृतिं मही गतवतीं गन्धरुवसंसेविता श्रीचक्रप्रियबिन्दुतर्पण परा श्रीराजराजेश्वरी हर्षोन्मत्तसुवर्णपात्रभरिताम् पीनोन्नतां घोर्णिताम् हुङ्कारप्रियशब्दजालनिरताम् सारस्वतोल्लासिनी सारासारविचार चारु चरिता वर्णाश्रमाकारिणी श्रीचक्रप्रिय बिन्दु तर्पण परा श्रीराजराजेश्वरी सर्वेषाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनी संयोगप्रियरूपिणीं प्रियवतीम् प्रीतां प्रतापोन्नता सर्वान्तर्गतशालिनीं शिवतनु सन्दीपिनीं दीपिनी श्रीचक्रप्रिय बिन्दुतर्पण परा श्रीराजराजेश्वरी कर्मा कर्म विवर्जितां कुलवतीम् कर्मप्रदां कौलिनी कारुण्याम्बुधि सर्वकामनिरता सिन्धुप्रियोल्लासिनी पञ्चब्रह्मसनातनासनगता गेयां सुयोगान्विता श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी हस्त्युत्कुम्भनि भस्तनद्वितयतः पीनोन्नता दानभा हाराद्याभरणाम् नरेन्द्र विनुताम् शृङ्गारपीठालया योन्याकारकयोनिमुद्रितकराम् नित्याम् नवार्णात्मिका श्रीराजराजेश्वरी लक्ष्मीलक्षणपूर्णभक्तवरदा लीलाविनोदस्थिता लाक्षारञ्जितपादपद्मयुगला ब्रह्मेन्द्रसंसेविता लोकालोकित लोककामजननी लोकाश्रयाङ्कस्थिता श्रीचक्रप्रिय बिन्दुतर्पणपरा श्रीराजराजेश्वरी ह्रीङ्काराश्रितशङ्करप्रियतनुम् श्रीयोगपीठेश्वरी माङ्गल्यायुतपङ्कजाभनयनाम् माङ्गल्यसिद्धिप्रदाम् तारुण्येन विशेषिताङ्गसुमहालावण्य संशोभिता श्रीचक्रप्रिय बिन्दुतर्पण परा श्रीराजराजेश्वरी सर्वज्ञानकलावतीं सकरुणाम् सर्वेश्वरीं सर्वगा सत्याम् सर्वमयीं सहस्रदलजाम् सत्वार्णवोपस्थिता सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभा श्रीचक्रप्रिय बिन्दुतर्पण परा श्रीराजराजेश्वरी आ दिक्षान्त सुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभिता नानावर्ण विचित्र चित्रचरिता चातुर्य चिन्तामणि चित्रानन्दविधायिनीं सुचपलाम् कूटत्रयाकारिणी श्रीचक्रप्रिय श्रीराजराजेश्वरी लक्ष्मीशानविधीन्द्रचन्द्रमपुटाध्यष्टाङ्गपीठाश्रिता सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरी गोप्त्रीं गर्वनि गर्वितां गगनगां गङ्गा गणेशप्रिया श्री श्रीचक्रप्रिय बिन्दुतर्पणपरा श्रीराजराजेश्वरी श्रीङ्कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनी वामाचारपरायिणीं सुकुलजां बीजावतीं मुद्रिणीं कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीं त्रिमूर्त्यम्बिका श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी या दिव्या शिवकेशवादिजननी या वै जगन्मोहिनी या ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी या पञ्चप्रणवद्विरेफलनिनी या चित्कलामालिनी सा पायात् परदेवता भगवती श्रीराजराजेश्वरी